यमाय सोम पवते यम क्रियते हम यम्ञाग्छतो दोल यमाय मधुमत्तम जुहोता प्रजनिष्ठता मेभ्य पूर्वजेभ्य यमाय पथिगृभ्यमायत् हमर्जुहोतला सरो जीवेष्वाय वेद् दीर्घमानुप्रजीवते महिलाग्ने विदर्हो मा विशुः सुतो मास्य शिक्षिको मा यदो गच्छात्यसूदीतिमेतामथ देवानामसगेर्भवादि श्रिकदृगे विप्लवते षडुर्वीरे विर्बृहज तिष्ठुवयत्रीच्छन्दाहंसिदर्वादाय मार्पीता शोर्यम् चक्षोषा गच्छात आत्मनादिवम् च गच्छ पृथिवीम् च धर्माभिः अपोवाहच्छा शरीरैः अजोभागस्तपशस्तन्तपस्वदन्तेः शोचस्तपदुदन्तेः अर्चिः यास्ते शिवास्तन्वोहो जातवेदस्ताभिर्वहीरम् सुकृताः पुलोकम् यास्तेः शोचजो रम्भजो जातवेदो जाभीरा प्रणासि दिवमन्तरिक्षम् अजय्यंत मृत सन्वतराशिविश्रत सृजरग्नेबुपया तो शेष संग सुवर्धा अतिद्रवश्वानो सारेजौ चुक्ष साधुना पथा अपि यमे न वे समाजम् वदन्ति यौतेष्वारो यमलक्षिदारोः चतुरक्ष उपधिषदि त्रिचक्षसा ताभ्याहम् राजम् परिधेय्येनम् स्वस्त्यल्लानीपञ्च धेहि पूर्णसा वा श्रुपाः कुटुम्बनौ यमस्य तु तौ चरामन स्मभ्यम् ऋषदे सूर्यमसोपद्येण भद्रम् स्वोपदेकेम्भ्यः पवते घृतमेक उपाहासते येम्भ्यो मधुप्रधावधिताम् स्त्रीदेवापि गच्छता पूर्वरदथाः तारुतजाः तारुतावृथाः तपस्पतो यतपूजाम् अपि गच्छता तपरसादे अनादृश्यास्तपसादे स्मर्ययोः तमो येत द्विदेवस्तांश्चिदेवापि गच्छतात् ये युध्यन्ते प्रधनेषु शूराः सोनेत गोत्यजाः देवाः सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् सहस्रणीयः कवयो ये गोः पायन्ति सूर्यम् ो नास्मै भव्यानि यच्छाः श्रीकर्म च प्रथाः अलम्बाधे पृथिव्या गुरो लोके यस्मा स्वधायाश्चास्तेः सन्तु मदश्च्युताः पयाविनसा मन हेमान्वजिषाणैः सङ्गच्छस्वपितभिः संयमेन सौरास्तावातान्तु सग्माः उद्वाः वहन्तु मरुदर उदाः बोधपृताः अजेन कण्वन्तः शीतम् वर्षेणोक्षम् तु बालिनि उदः परमाल्लाजूषे क्रद्देक्षा जीवते स्वाङ्गच्छन्ते मनो पित्रे मृगोद्रः मा ते मनोमासोर्माङ्गानाम् मार्गस्य मा देहास्तदम् मा किम् जनेह मा त्वा वृक्षस्तम्भः दृष्टमा देवी पृथिवी यत्ते अङ्गमदीहितम् वराजैरपानः प्राणोजगो संगत्य परेहेतः प्रत्यये सङ्गत्य पितरः शरीहीराद्धासाद्घासम् मुररावेः शयन्तु अपेमम् जीवारुसङ्गृहेऽभ्यस्तम् निर्वहत परिग्रामाः विदहत्यूतः प्रचेहेतासोभ्यो गमयाञ्चकार एतस्यैव पितृढः प्रविष्टा ज्ञातिमुखा हुता दश्चरन्ति परापुरो निपुरो ये भरम् निर्दिष्टादस्मान्ज्ञात् संविषन्विह पितरस्वारस्योरम् गृह्णन्तम् आयोः तेभ्यश्च के महविषा न क्षमाणाज्यो जीवन्तः यान्तेः धेनुम् ने प्रणामि योदे क्षीरो धनम् तेन जनस्यासो भर्ता योऽत्रासरीरवः अश्वाहावीम् प्रदसेवाक्षातम् वा प्रदन्न वीरः यस्त्वाहा जघानवध्यस्सो अस्त्वमासो अन्यद्वेदतभागधेन यमः परोना यमे अध्वरोविष्टो भो विवस्वारम् वातता अवाहा गोहन्नमृताम् मर्त्येभ्यः कृत्वा समन्नामर्विवश्व भवत्यत्तदासीदजहा सर्वां स्तानगावहविष ये अग्निदग्धादे अनग्निदग्धामध्ये वदयामादरन्ते त्वन्तान्वेत्थ यदि ते रातवेदस्वधयाः यज्ञम् प्रधीतिम् जुषन्ता सन्तपराती तवग्नेवादनम् ृथिव्यास्तम्यस्मसानेत नमस्ते यहा ते षेद नो महे यथा पारन्नवा साहादई छोलोपुरा रेवाम मात्र महे लथा पारन्नवा साहादई छदे धरत सोलोपुरा मात्रा मिवे महे लथा पारन्नवा साहादई छोरा निरिवाम् मात्राहमि महे यथा पार्णमासाहादये छते सरत्सु नो पुरा गुरिवाम् मात्राहम् इमे महे यथा पार्णमासाहादये छते सरत्सु नो पुरा सनिवाम् मात्राहम् इमे महे यथा पार्न्नमासाहादये छते सरत्सु नो पुरा अमाहासि यथा पारन्नमासाः दीयते सरत्सु न पुरा प्राण आपानम् यानहारि चक्षुर्द्विषये सूर्याय अपरिमरेण पथायवराः ज्ञः पित्रेम् गच्छे अग्रे वश्यशमानाः पारेणां न पद्यवन्तः तेद्या विद्याविदन्तलोकम् नागस्य पृष्ठे अधीध्याना उदर्मदीद्यौरव पितुमदीति मध्यमाः प्रद्योसाम् पितर आजरते येन पितुः पितरो ये पीता महायाः विशर्वा अन्तरिक्षम् याः क्षियन्ति पृथिवीमुदर्द्याम् तेभ्यः पितृभ्यो न सा विधेवा इदमिन्ना माता पुत्रम् विठाः शिखाभ्येलम्भो मौर्मुहिन्दामुनापारम् जलस्य जायापतीभ्ये लम्भो मौर्नुहि अहितो्या मातृ वस्त्रेण भद्रयाः जीवेषु भद्रम् तम् मयि स्वधा पितृषात्मयि अग्नेशो मावधीकृतास्योऽनम् देवेभ्यो रत्रम् नर्विलोकम् उपप्रेष्यम् दम् भूषण्यो वाद्यैः पतिभिस्तत्र गच्छतम् पूषास्त्वेतश्चावेदप्रविद्वानष्टवदुर्भुगानश्च गोपाः स त्वेतेभ्यः परिदर्पितृभ्यो अग्निर्देवेभ्यः सुविदत्रियेभ्यः आयु सायः परे पातु पुरामोधात्पाः प्रपथे पुरस्तात् यत्रासते सुकृतो यत्र वितार धातु इमो यो लग्नि देवी असूनीतायोढरेभ्याहं दे यमस्य सादरम् समीतिश्चावगच्छता ते तत्त्वाभाष प्रथयान्माजम् न वैदो पुरा निष्ठापूर्तमानुसङ्काः विद्वान्यत्र ते दत्तम् बहुधा अग्नेर्वर्मपरिगोभिर्जय स्वतम्बोन्नुष्पवेदसा पीयसा चेत्वा धृष्णुर्हरसा चाणो धृक्षम् पाकी गजा तै ण्डम् हस्ताः दा ददाह नो गो सहस्रोत्रेण वर्चसामलेन अत्रैव त्वम् धनुर्भस्ताः ददाह नो वृतस्य सहक्षत्रेण वर्चसामलेन समाजोष्टुमजीवलोकम् ैः पतिलोकम् व्रीणानानिपद्यतरुपद्भावत्य प्रेतम् धर्मम् पुराणमानुपालयन्ति तस्यैः प्रजाम् द्रवीणम् चेखे हि उदेहेश्वरार्यभिजेहैव लोकम् गतासुपेतमुशेखरे हि हस्तग्रामस्य निमभिसम्बभूथ अवश्यम् युवतिम् नीजमाहानाम् जीवान्तेभ्यः परिणीयवाहानाभृताधे प्राप्तो प्रजानत्यज्ञेनैव लोकम् देवानाम् पन्थाः मनुसञ्चरन्ति अयम् ते गोपातिस्तञ्जोषस्व स्वर्गम् उपद्यामुपामे दशमत्तरो नदीणाः अग्नेः वित्वमपामासि समितमग्ने समगरहस्तमनिर्वाहापया पुनः क्याम्बोरत्र रोहतु शाण्डदूर्वाविलोल्कषा इदम् तदैरङ्गम् परभूतरे ज्योतिषा संवीषस्मात् संवेशने तम्बाश्चारुरे प्रियो देवानाहम्परमे सधस्तेः बुद्धिष्ठप्रेहि प्रद्रवौ कर्ष्णश्व तत्र तम् विदृभिः संविधानः संसोमे न संस्पधाभिः प्रत्ययवस्वतम्बाम् सम्राहस्वत्राविहारिमो विष्टमनुसंवीषस्व यत्र होमे गच्छयसा माम् पितरः सोम्यासो अञ्जन्तु देवामधूना वृतेन चक्षुषे वा प्रतरम् धारयन्तो जरसेवा जलक्ष्म्यम् वर्धन्तो वर्जयसामाम् समानकव्यम् मेधाम् मे श्वे नियच्छन्तु देवास्यो नापमाने विद्यावरुणा परिमाधातामादित्यामा स्वरावो वर्धयन्तु वर्चो मैन्द्रोण्यानक्तुमस्तयोर्जनदृष्टिम् यो मादविधा योऽपमानप्रथेमो मत्याः नाम यः प्रेयाय प्रथमो लोकवेदम् वैवस्पतम् सङ्गमानयम् राजा पराः यातपितराचयाज्ञामधूरा जा जा समर्दः नर्तो अस्मभ्यम् द्रवेणेखभद्रम् धरीम् च न सर्ववीरम् दधाता कण्वः कक्षीवाहम्बुरमेढो आगस्त्य श्यामाश्व विश्वामित्रोऽयम् जमलग्निरत्रियमम् तु नः कश्यपोः वामदेवः विश्वाहामित्रज्ञसिष्ठभरद्वाज गोतमवामदेव छद्यम् मात्रेरङ्गः कस्य मृजानादीयम् तिरिप्रमायोगधाहारः प्रधानम् अविहीयः प्यायमाला प्रजजा धनेनाथस्य मधुरभयोः गृहेषु प्रञ्जते व्यञ्जते समञ्जते क्रतुम् विहन्ति वधूराभ्यञ्जते सिन्धो रच्छ्वासे पतयन्तभक्षणम् निरण्पावा पशुमाः सु गृह्णते यद्वहमुद्रम् वेतरः सौम्यम् च कया विदधेनाः एरत्रयोङ्गेरमग्ष्टावन्तोरा चोदधानाः दक्षिणामन्तः स्वगुरु सज्ञः मातयध्वरम् अधा यथा न पितरःफलासपत्नातो अग्निरतमाशदानाः श्रीन्द्रोक्षया रक्षामाः भिन्दन्तो अरुणीयुरन्न सुकर्माणः सुरचो देवयन्तो अयो न देवाजलीमागमन्तः शुचन्तो अग्निम्बा वृथन्त इन्द्रमुद्रीम् दव्याम् परिहरन्नो अग्नन् आयो देववाक्यदेवानाम् जयमान्त्युग्रः भर्ताहारश्चिदुर्वधी मते परस्यादोः परम् मते स्वपरसोऽर्तमा वस्तम् नृषतोः विभातेः विश्वम् तद्भद्रै्यदवन्ति देवा विषद्वदेव विदधेः सुवीराः इन्द्रो मारुत्तान् प्राच्यादिशः पाः दु बाहुच्युताः पृथिवीर्यावीव उपरि लोक पथि ईरा मेरे देवाना गारिगस्थ धाता दक्षीण या दिश स्वाहाच्युता पृथिवीदी लोक प्रथि घता मेरे देवाना गारिगस्थ अदीतमादी प्रतीत स्वाहाच्युता पृथिवीदीपी लोकगत पथि गृत राय देवात भागिहस्थ सोमो विस्मृदापाहच्युता पृथ्वी दी गोपरी लोकगत पथि गये जे देवाहा दर्दरुणो धारयाता ऊर्धम भानुंस विदा दिया लोकागतः पथि यमे जयदेवा गायिहस्ता प्राच्याशिपुरा संतस्वधायादधा वहच्युता पृथिवीदापरी लोकागतः पथिगत यमे जय देवा गारिहस्ता दक्षिणायां धिशिपुरा संतस्वधायादधा वाहुच्युता पृथिवीदायामी लोकागतः पथि गतो रामे जय देवानाम् उत महागा विहस्था प्रीत्याम् द्वादिशि पुरादम्पधा रामाद धामि वा उच्युता पृथिवीत्यामी वोपरि लोकागतः पथि गतो रामहे जय देवानाम् उत माहागाविहस्थादम्पधा रामाद धामि वा लोककृतः पथिगतो विरामहे जे देवानाम् हुतभाः गारिहस्थ ध्रुवायाम् त्वादिशि पुरा संवृतस्पधायामानर्धामिमा भच्युताः पृथिवीद्यामेवोपरि लोकाकृतः पथिगतो विराम हे रे देवानाम् हुतभाः गारिहस्थ ऊर्ध्वायाम् त्वादिशि पुरा संवृतस्पधायामा लोकगतः पथिगतो यजामहे जे देवानः उत महागारिहस्था धर्ताति धरुणो दिवंस गोधि उत पौरसि मधुपौरधिमातपौरसि इतश्च वा मुदश्चावताम्य मे जीव यतमादे यथयितम् स्वासस्ते भवरविन्दरमेणो इदे वा ब्रह्म पूर्व्यम् नमाभि विष्णोकरजेति पथ्ये वदति शृण्वन्तु विश्वे अमृताः तदेतदे त्रीणि पदानि नृपो अन्वरोचतुष्पदीमन्वैः तत्पदेन अक्षरे प्रतीविमीले अर्कमृतस्य नाभाः विरुहम् बोधाति ना देवे व्यःकमावृणीतमृत्युम् भजानि बृहस्पतिर्यज्ञमाधरुदृष्टियाञ्जमस्तन्नामायिरे च त्वमग्रजीणितो जातवेदो माड्ढव्यानी सुरभी कृत्वा रादात्भ्यस्वधयादे अक्षन्नद्धित्त प्रजदाहवीन् हि आहीरादोरुणीरामस्थेरयन्धत्तदाशुशयमत्याहार पुत्रेभ्यः पितरस्तस्य प्रणीतरः अत्तो हेम्प्रजतारिजरः सर्ववीलम् दधारोतारः पितरः सौम्यासो बहिष्ठेषु निजप्रजेषु न्तु तयः श्रोन्तु हि ब्रुवन्तु देवम् पितुः पितरो ये वीदामः राणो हवीम् सृशम् सन्धिप्रतिगावभवत् वेदाः त्रवृदेः वक्त्राजेहमानाहोत्राविरस्तो मय दष्टासो सहस्रम् देववन्दे सत्ये कविभिर्षे सत्यासो हविरीया देवैः सहसम् तुरेण आग्नेःत्रे सर्वाङ् पूर्वैरुषे सर्घर्म सद्भिः उपरसर्वमातरम् भोजी वेदापुरव्यजयम् पृथिवीम् सुसेवाः ृदा पृथिवी दक्षेणावतरे दाः पादप्रपाते पुरस्तात् पुष्वम् च स्वीमानिस्तोपायनास्मै भवतोपधर्मयणाम् यथाभ्ये नम्भो वोर्णुहि माना पृथिवी सुक्षतु सहस्रम् यतवरन्ता ते गृहादो गतश्चुतश्चो रास्मिणाः सन्तप्ता बुत्रेस्तभ्रामिपुथिपरैवल्लोकम् नितधर्मो अहम् एताम् स्थोणाम् पितरोः धारयन्ति ते तत्र नवसादनाथ ते कृणोतो इमग्ने चमीश्वरप्रियो देवानात सोम्याना अय्यश्च वसोदे वपानस्तस्मिन्नेव अमृताः मादयन्ता अधर्मर्वापूर्णम् च वसंयमिन्द्राजायामी भर्वादिनी वते तस्मिन् क्रणोदि सुकृतश्च भक्ष्यम् तस्मिन्निन्दुः पवते विश्वदारी यत्ते कृष्णस्य गुणा दुतोः सर्प उत अग्न्यश्चग्निष्पादकन्द्रेणोमश्च ब्राह्मणायस्पतिथयपयस्पम्मा वकम्बजाः अवाम्पयदोषपयस्तेन सह सम्भदा विमानादीरमासुपत्नीराञ्जनेन सर्विषा संस्पृशन्ताम् अनश्रवो अनमीवा सुरत्ना आरोहम् तु जनजोजो निमग्नेः सङ्गच्छ स्रिभिः संयमेनेष्टापूर्तेन परमेव्यो मन् हित्वा पद्यम् पुनरस्तमे सङ्गच्छताम् गन्नाः सुमर्जाः एनः पितुः पितरो ये पीतामहायाः विशुर्वा आन्तरिक्षम् तेभ्यः स्वराडसूर्य वशम् तन्नः कल्पयाति सन्तेः हारो भवतु सन्तेः पुष्पावशीयता चीके चीने कावे क्लादीके क्लादिकावति पण्डोख्या आप्सु शम्भो वंसा आग्निम् पिवस्वान्नो अभयजम् गणो तिजः सुीरदानुः सुदारोः इहे मे वीरा बहवो भवन्तु गोभदस्वन्मय्यस्तु पुष्टम् विवस्वान् नो अमृतत्वे दधादुपरे मृत्युरमतम् इमान् रक्षतु पुरुषाणाचार्यम् नो बोष्वेः यो अन्तरिक्षेण मह्नापित्रेणाम् कविप्रमाजुम्मतीना तमर्चलविश्वमित्रा हविर्भिः स्वणो यमः प्रतर्जीवधेधात् आरोषजो माबीभीर सोमवा सोमवाय इदम्बः क्रियते हविरविम् मज्योतिरुत्तमम् ृदाभात्यग्निरारोदयदीर्णरोरवी दिवस्तिडन्तादुपरमा उदाहरणस्थेणो वर्धा नागे सुपर्णमुपयपदन्तम् हृदा वेलन्तो अभ्यदक्षलत्वा ज्यपक्षम् वरुणस्य लोदयवस्यो नोषकुरम्भोरण्यम् इन्द्रः कतुम् नाभारिता पुत्रेऽप्योऽयथा शिक्षाणास्मिन् गुरुः वा ज्योतिरधीमहि अवोवादीहितान् कुम्भान् यास्ते देवाधारयन् हे देहे सन्तु स्वधावन्तो मधोमन्तो घृतश्च्युताः यास्ते धानानुगिलामिलमिश्रा स्वधाना तास्ते स्ते सन्तु गी प्रभवीस्तास्ते यमो राजा नो मन्यतानस्पतेजे तस्मै जना यमस्य आरभस्मजादवेदस्तेजस्वद्धनो अस्तुके शनैः रमस्य सन्तः श्रीनम् देहि सुकृतः ेवतापरे पितश्चे तेभ्योः कृतस्य तुल्यै तु शती एतदारोह अवयवन्मजान स्वा इह बृहदूदीदयन्ते हि मध्ये गोमापहास्तात् पितॄणाम् लोनम् प्रथमो यो अत्रा चरित्रीम् जातमहे दशो भेवाम् याहईताः सुकृताम् भक्तलोके देव्य तमः कल्पयन्ति हविः पूर्णोडाशम् सुतोलिज्ञानुधारिभिपतिर्देवैजानाः स्वर्गयन्ति लोकम् स्य बन्धा मनोपश्यताः स्वर्गै यत्रादित्यामतो भक्षयन्ति तदीरे अधिविश्रजस्व त्रयस्वर्णा उपारस्य मायो पृष्टे अधिविष्टविश्रताः स्वर्गालोकावदयेन विष्टाय च मूर्ध्यम् निजयमाणाय द्युहोर्दाहाधारत्यामोपरिक्षम् ध्रुवापृथिवीम् प्रतिष्ठा प्रदेमाम् लोकाघटपृष्ठा स्वर्गामम् कामम् यजमानाय दुर्गा ध्रुवरोहपृथिवेम् इष्टभोजमन्तरिक्षमोभता जुहृद्याजन सागम स्रुवेण वत्सेन दिशा प्रवीणा सर्वा दुक्स्वाए स्तर महिरी सुकृत लोकं दिशो भूतायन अङ्गिरसामजनम् पूर्वो अग्निरादित्यानामयनम् गार्हपत्यो दक्षिणानामननम् दक्षिणाग्निः महिमानमग्नेरविहेतश्च ब्रह्मण समङ्गः सर्वगुपजाहिशग्मः वो अग्न्यष्टा तपदशम् पुरस्ताच्छम् पष्टात्तपतु गार्णपद्यः दक्षिणाग्निष्टेतपद्रह्महोत्तरतो मध्यतो अन्तरिक्षाद्विषो दीशो अग्ने परीपाहि घोरात् योऽयमग्ने चन्दर्माभिषतनो भीरी जानमभिलोकम् स्वग्रम् अश्व भोत्तवृष्टिबाहो मातरित्र देवैः स जमाधम् वदन्ति समग्ने पश्चात्र वशम् पुरस्ताच्छमुत्तराच्छात्र वैरम् एकश्रेधा विहीतो जातवेदः संयगे हे लन्धे सुकृतामुलोके समग्रयः सविद्धा आरभन्ताम् प्राजापत्यम् मेध्यम् जातवे हे दशः क्षितम् कण्वन्तरियमावचिक्षिपन् यज्ञे वितरः कल्पमालीयानमभिलोकम् स्वर्गम् त्वमग्नयः सर्वहृतम् यसन्ताम् राजापत्यम् मेध्यम् जातवेदः क्षतम् कण्वन्त इयमापचिक्षिपन् ईदानश्चित्यमारुक्षदग्निम् तस्मै प्रभादिनपरसो ज्योतिषीवाम् स्वर्गः पन्थाः अमग्निर्होताद् दुर्युष्टबृहस्पतीन्द्रो ब्रह्मा दक्षिणातस्तेः अस्तु होयम् संस्कृतो यज्ञे धीरपूर्वमजनम् हुताना अवोपवान् क्षीरवाम् शरुरेहतिकतः पथिकृतोऽयामहे देवानाम् हुतमाहागारिहस्था अवोपवान् तथीवाम् शरुरे हसि ीडतु लोकगतः प्रथिगतो रामः जयदेवानाम् दे भुतभाः गायिहस्थ अपोभवान् रप्सवान् शरुरे हरीरतो लोकगतः प्रथिगतो रामः जयदेवानाम् दे हुतमाः गायिगस्था अपोभवान् धृतवान् शरुरे हरीरतो लोकगतः प्रधिगतो रामः जयदेवानाम् दे हुतमाः गायिहस्था अपूपवाहन् मांसवांश्चरुरेहति ईडतो लोककृतः प्रतिकृतो यरामहे जय देवानाम् हृतभाः गादिहस्ता अपूपवानम् देवांश्चरुरेहसि ीडतु लोगकृतः प्रतिकृतो यरामहे जय देवानाम् हृतभाः गादिहस्ता अपूपवान् मधूमांश्चरुरेहति लोकागतः पथि गतो यामहे जय देवानाम् भुतभा गायिहस्ता अभोपवान् दसर्वांश्चेहसीदतो लोकागतः पथि कृतो यामहे जयदेवानाम् भूतभा गायिहस्ता अभोपवानपर्वांश्चेहसीदतो लोकागतः पथि गतो यामहे जयदेवानाम् भूतभाः गायिहस्ता अपूपाभिहितान् कुम्भान्यां स्ते देवाधारयन् एते सन्त स्वधावन्तो मधोमन्तो गतश्चुताः यास्ते धानावेलमिश्रा स्वधाः तास्ते सन्तोद्भेष्टभवेस्तास्ते यमो राजालो मुन्यरा अक्षे निम् भूयसे स्कन्द पृथिवीमनुमञ्चयोमनुश गौरवाः समानय निमनुसञ्चरन्तम् दप्सन् यो होम्यनो हस्तहोत्राः शरथाहारम् वायुवर्कम् सर्वविदम् दृजक्षहस्ते अभिषक्षते हयम् ये वृणन्ति प्रचयच्छन्ति सर्वरदाते दुःप्रदे दक्षीणाम् सप्तमाः कोशम् दुहन्ति कलशम् चतुर्विलघटाम् धेनुम् मधोमते स्वस्तये ऊर्जम् मदन्ति मदीयम् जनेश्वरे माहि परमेतत्ते देवस्य पितावासो ददाति भर्तरे तत्त्वय्यमस्यैराज्येवस्ताम् च धाराधेनुरभवद्वत्सो अस्यास्ति लोभ ताम् नियमस्य राज्ये रक्षितामुपजीवति एतास्ते असौधेनवः कामदुघाः भवन्तो एणे शेणीः सर्वोपाविरूपास्तिलवत्स उपतिष्ठन्तो रात्र एणेर्धानारेणे देने शेणीरस्य कृष्णाधानारोहिणेऽर्धे नमस्ते तिलवत्सावोर्जवस्पैरुहा विश्वाहार स्फुरन्तेः ऐश्वानरे हरिण्यो मे सहस्रम् शतधारे भक्तिपितरम् यदा महान् प्रपेदा महान् मे भक्ति पिम्बयमानः शास्त्राधारम् शतधारय वत्सरमक्षीतम् यच्छ महानम् पृष्ठे परस्परम् दर्वा सितरस्वधाभिः इदङ्गसाहम्भुरयनेन चितम् न जात अवपश्यते मत्योयमृतत्वमेरितस्मैतरावत्सबन्धो इहैवेदीरीवीर्यवत्तरोवयो अपराहतः पुत्रम् पोत्रमपि तर्पयन्ति रापो मधुमतीमा सदाम् पितृभ्यो अमृतम् दुहापो देवीरुपयाम्स्तर्पयन्तु आवो अग्निम् वृहेणुपजते नृपे मयि यज्ञम् पितरोः पेतिसन्धा तेनो तेनोरयम् सर्ववीरम् नियच्छात् ते। समिम् धते अमर्त्यम् हव्यहम् घृतप्रियम् सेरे निहीतान् निधीन् पित्रेन् पारावतो गतान्ते मन्थम् यमाद माम् सन्निवृणामी ते एते सन्तो स्वधावन्तो मधुमन्तो घृतश्चुताः यास्ते धारानुगिरामि तिरविश्वास्वधावाति स्ते सन्तोस्तास्ते यमो राजानो मन्यता इयम् पूर्वमपारम् निजानम् ये लाह ते पूर्वे वितलः परेता पुरोगवायेचो अस्य जेत्वा वहन्ति दूतामुलोकान् सरस्वतीम् वे वयन्तो हन्ते सरस्वतीभरे ताजमाहारे सरस्वतीयम् कृतो भवन्ते सरस्वती मार्यन्दात् सरस्वतीयम् पितरो भवन्ते दक्षिणारिज्ञमभिलक्ष्यमाणाः आसत्यास्मिन् वर्णे मानर्धमनमेवाय आभेह्यस्मे सरस्वती स्वधाभिर्देवदन्ति सहस्रार्ग्रमिडोऽग्रभागम् राजस्पोषम् यजमाना यधेहि पृथिवीम् ताः पृथिव्यामावे धाताम् प्रतीरात्याजोः पराः परे तावो अस्मथा मृतात् पितृष्णवृन्दो आप्रत्यवेतामपरम् यद्वाहामभिधात्रोजः अस्मादेवतुः पितृष्वहतो भद्रयतो सुधाः यौवने देवानोपञ्चदीय पितृभ्य उपसम्पनाः न जातिमान इदम् पितृभ्यः प्रभारायज्जीवम् देवेभ्योत्तरम् शृणामि कदा नोध्योन् प्रति यथा गुरुदन्वात्रा ब्रह्मणा कल्पयामिर्जो वनम् दोजो नागम्य आयुर्वेवेभ्यो विदधद्दीर्घायुक्ताय शरभाय ऊर्जो भागोयमञ्जानस्मान्नामेवञ्जगामर्जत विश्वमित्रा हविर्भ्यस्तनोयमप्रथन्य मानवाः यथा इदम् हिरण्यम् पुराहत्वम् दक्षिणम् ये च जीवाय च मृताय जाताय च यज्ञाः ते द्वादस्य कल्ये तु भूतानाम् युन्दरति विषामदीनाम् बात विचक्षणः सोरोतैः कालस्सिन्धूनाम् क्लेशस्ते धूमोहर्णोणम् शुक्रातरतः सोरोजसे प्रवायतेन्दुरिन्द्रस्य निष्कीतिम् सखादक्षम् नवनवीनादिसङ्गिनः पर्यैव जोषा स्रवर्षदे लोमः कलशे सदरा अक्षन्नमे वदन्त ह्याः प्रिगाधारोढा अस्तोऽभिप्रायमिष्ठानीमहे आयातपितरः सोम्यासो गम्भीरे पदभिर्विद्र्याणैः आयोरस्मभ्यम् दधरप्रजाम् च रायश्च गोढैः अभिनः सदर्भम् पराः यातपितरः सोम्यासो गम्भीरे पदभिप्रोर्याणैः अथ मातिपुरराजा तनो गृहान् सुवीराः यद्वारे तत्पुरराज्ञा यामि साङ्गाः स्वर्गे पितरोः मातयद्धम् अभो देवमहीतो जातवेडा सायम्यम् न वन्द्यो नभिः प्राजाः पितृभ्यः स्वरक्षन्न प्रयतासौहायत्सर्वम्भो मनुहि शुम्भम् ताल्लोकाप्य दशदर्णाप्य दशदत्वा लोकासा दयामि येष्माकम् मितरस्तेषाम् परिहरसि उदु नरुणपाशवस्पदमाहारमम् विमध्यमम् श्रय अधाः वयमाहारित्ये स्याम रास्मद्पाचारम् वरुणमुसर्वाज्ञैः स मामे मध्यय नैर्म्यामे अधाः जीवेम शरदम् शदानि त्वया राजम् कुपिता रक्षयमाणाः अग्नजे गव्ययवाहरणाय स्वधा नमाः सोमाय पितर्माय स्वधा नमाः पितृभ्यः सोमा मध्यः स्वधानमाः द्यमाय पितर्माय स्वधा नमाः एतर्ते प्रददामः स्वधारे तत्त्वामनो एतर्ते ददामः स्वधारे तत्त्वामनो एतर्ते तदस्वधा स्वधापितृभ्यः प्रतिविनद्भ्याः स्वधापितृभ्योऽन्तरिक्षदभ्याः स्वधापितृभ्यो विनद्भ्याः नमः मोर्जय नमः पितरो रमाय नमः भामहाय नमः पितरो मन्यवे नमावरो यद्धोरम् तस्मै नमः वप्तरो यत् घोरम् तस्मै नमो वापितरो यच्छिवम् तस्मै नमः वप्पितरो यत् शोनम् तस्मै नमः पितरसः पितरः येऽत्र पितरः पितरो यत्र यूजम् स्था युष्मांस्तेनो योऽयम् देशाम् श्रेष्ठः भूयास्थ यदिह जीवाजिह वयम् स्मः अस्मांस्तेनो वयम् देशाम् श्रेष्ठः भूयास्थ आत्माग्नन्तम् देवाचलम् यद्धरसा इहम्भ्याभर चन्द्रमास्वान्तरासु भनोधाः वदे दिवि नभो हि अन्येव वयः पदम् विन्दन्ति विद्युतो वित्तम् मे अस्य होदयी भूमे, भूमे मातर्निधेहि भद्रया सु प्रतिष्ठितम् संविदानादिव कवे श्रियाम् माधेहि भूत्या ओ इत्यष्टादशम् काण्डम् समाप्तम्